ॐ तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दि प्रचोदयात् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नन्दिप्रचोदयात् क्रतुण्डाय धीमहि तन्नो नन्दिप्रचोदयात् ॐ नन्दिकेशाय नमः ॐ ब्रह्मरूपिणे नमः ॐ शिवध्यानाय नमः परायणाय नमः ॐ तीक्ष्णशृङ्गाय नमः ॐ वेदभागाय नमः ॐ विरूपाय नमः ॐ वृषभाय नमः ॐ तुङ्गशैलाय नमः ॐ देववाय नमः ॐ शिवप्रियाय नमः ॐ विराजमानाय नमः ॐ नटनाय नमः ॐ अग्निरूपाय नमः ॐ धनप्रियाय नमः ॐ शितचामरधारिणे नमः ॐ वेदाङ्गाय नमः ॐ कनकप्रियाय नमः ॐ कैलासवासिने नमः ॐ देवाय नमः ॐ स्थितपादाय नमः ॐ स्तुतिप्रियाय नमः ॐ श्वेतोपवीतिने नमः ॐ नाड्यनन्दकाय नमः ॐ किङ्गिनीधराय नमः ॐ मत्तशृङ्गिने नमः ॐ हाटकेशाय नमः ॐ हेमभूषणाय नमः ॐ विष्णुरूपिणे नमः ॐ पृथ्वीरूपिणे नमः ॐ निधीशाय नमः ॐ शिववाहनाय नमः ॐ शुळप्रियाय नमः ॐ चारुहासाय नमः ॐ शृङ्गिने नमः ॐ नवतृणप्रियाय नमः ॐ वेदसाराय नमः ॐ मन्त्रसाराय नमः ॐ प्रत्यक्षाय नमः ॐ करुणाकराय नमः ॐ श्रीकराय नमः ॐ लमकलिकाय नमः ॐ शियोगिने नमः ॐ जलाधिपाय नमः ॐ चारुरूपाय नमः ॐ वृषेशाय नमः ॐ सोमसूर्याग्निलोचनाय नमः ॐ गन्धराय नमः ॐ सोमभूषाय नमः ॐ सुभक्त्राय नमः ॐ कलिनाय नमः ॐ सुप्रकाशाय नमः ॐ महावीर्याय नमः ॐ हंसाय नमः ॐ अग्निमयाय नमः ॐ प्रभवे नमः ॐ वरदाय नमः ॐ रुद्ररूपाय नमः ॐ मधुराय नमः ॐ कामिकप्रियाय नमः विशिष्टाय नमः ॐ दिव्यरूपाय नमः ओम् उज्ज्वलिने नमः ॐ ज्वालनेत्राय नमः ॐ संवर्धाय नमः ॐ कालाय नमः ॐ केशवाय नमः ॐ सर्वदैवताय नमः ेतवर्णाय नमः ॐ शिवासीनाय नमः ॐ चिन्मयाय नमः ॐ शृङ्गपेतचामरभूषाय नमः ॐ देवराजाय नमः ॐ प्रभान्दिने नमः ॐ पण्डिताय नमः ॐ परमेश्वराय नमः ॐ विरूपाय नमः ॐ विरागपराय नमः ॐ छिन्नदैत्याय नमः ॐ नाशूत्रिणे नमः ॐ अनन्तेशाय नमः ॐ तिलतण्डुलभक्षणाय नमः ॐ द्वारनन्दिने नमः सरसाय नमः ओम् विमलाय नमः ॐ पट्टसूत्राय नमः ॐ कालकण्ठाय नमः ॐ शैलाधिने नमः ॐ शिलातनसुनन्दनाय नमः ॐ कारणाय नमः ॐ स्तुतिभक्ताय नमः ण्ठाय नमः ॐ दन्ताय नमः ॐ विष्णुनन्दिने नमः ॐ शिज्वालाग्राहिने नमः ॐ भद्राय नमः ॐ अणघाय नमः ॐ वीराय नमः ॐ ध्रुवाय नमः ॐ धात्रे नमः ॐ शाश्वताय नमः ॐ प्रदोषप्रियाय नमः ॐ कुण्डलकृते नमः ॐ भीमाय नमः ॐ शिववर्णस्वरूपाय नमः ॐ सर्वात्मने नमः ॐ सर्वविख्याताय नमः ॐ श्रीनन्दिकेश्वरस्वामिने नमः नानाविध परिमल पत्रपुष्पाणि समर्पयामि श्रीनन्दिकेश्वरस्वामिने नमः धूपमाघ्रापयामि धूपानन्तरम् आचमनीयम् समर्पयामि श्रीनन्दिकेश्वरस्वामिने नमः दीपम् दर्शयामि दीपानन्तरम् आचमनीयम् समर्पयामि श्रीनन्दिकेश्वरस्वामिने नमः गुडमिश्रतण्डुलम् निवेदयामि नैवेद्यानन्तरम् आचमनीयम् समर्पयामि श्रीनन्दिकेश्वरस्वामिने नमः कर्पूरताम्बूलम् समर्पयामि श्रीनन्दिकेश्वरस्वामिने नमः कर्पूरनीराजनम् समर्पयामि नीराजनानन्तरम् आचमनीयम् समर्पयामि प्रार्थना शिववासररूपाय प्रदोषप्रियरूपिणे सर्वलोकप्रसिद्धाय नन्दिकेशाय वै नमः शिवम् शिवकरम् सूत्यम् शिववाहकरूपिणम् यं नत्वा सर्वभूताश्च सुखम् यान्द्रिमहीतले तम् वेदरूपिणम् देवम् नन्दिदेवमहम् भजे द्वितीयम् परमम् शम्भुम् शिलवर्णस्वरूपिणम् ईप्सितार्थप्रदातारम् नन्दिदेवमहम् भजे